हरि ओम् श्री सीतारामचन्द्राभ्यां नमः अथ श्रीमद्वाल्मीकि रामायणे अयोध्याकाण्डे अष्ट पञ्चाशे सर्गः दशरथस्य आत्मीयासमन्त्रेण श्रीरामलक्ष्मणयो सन्देशस्य श्रावणम् प्रत्याश्वस्तो यदा राजा मोहात्मस्यागत स्मृतिः तदा जु रामवृत्तान्तकारणात् तो महाराज कृताञ्जलिः उपस्थितः रामम् एव अनुशोचन्तम् दुःखशोकः समन्वितम् वृद्धम् परमसन्तप्तम् नवग्रहम् इव द्विपम् विनिश्वसन्तम् ध्यायन्तम् अस्वस्थम् इव कुञ्जनम् राजा तु रजसासूतम् ध्वताङ्गम् तु अश्रपूर्णमुखम् दीनम् उवाच परमातवेत् कनुवस्यति धर्मात्मा वृक्षमूलमुपाश्रितः सोऽत्यन्तसुखिता सूत् किमशीषति राघवे दुःखस्यानोचितो दुःखम् सुमन्त्रै नोचितः भूमिपालात्मजो भूमौ शेते कथमनाथवेत् यम्यान्तं ज्ञ स्मय स्म पदाति रथकुञ्जरः स वत्स्यति कथं रामो विजनम् वनमाश्रितः व्यालर्मृगै आचरितम् कृष्णसर्प कथं कुमारो वैदेह्य सार्धं वनम् उपाश्रितौ सुकुमार्या तपस्विन्या सुमन्त्र सहसीतया राजपुत्रौ कथम्पादे अवरुह्य रथा गतौ सिद्धार्थ खलुषु तत्त्वं येन दृष्टो ममात्मजो वनान्तं प्रविशन्तो तौ अश्विनौ इव मन्दरम् किमुवाचे कि चोरम् किमुवाच च लक्ष्मण सुमन्त्रे नमासाद्य किमुवाच च मैथिली आसीतम् शयितम् भुक्तम् सुतरामस्य कीर्तये जीविष्यामि अयमेतेन ययातीव साधुषु इति श्रुतो नरेन्द्रेण चोदित सज्जमानय उवाच वाचा राजानम् स महाराज धर्मम् एवानुपालयन् अंजलिम राघव कृत्व शिता प्रणम्य सूत मद्वचनात्मन शिथ व्यो पहात्म सर्वतरम वाच्यम सूत मद्वचना आरोग्यम अवशेषेण यहादनम माता च मम कौसल्याशल चाभिवादनम चा वक्तव्या यहां कालम अग्निगार पलाभव देव देव पाद पिपाल अभिमच चे, मनमच्रवर्तस्व मातृज अनुराज नारिया कैकेयीम् अम्बकार्य कुमारे भरते वृत्ति वर्तितव्या च राजवेत् अप्यज्येष्ठा राजानो राजधर्मम् अनुस्मर भरते कुशलम् वाच्यो वाच्यो मद्वचनेन च सर्वास्वेव यथा न्यायम् वृत्तिं वर्तस मातृषु वक्तव्य च महाबाहू इक्ष्वाकुकुलनन्दनः पितरं युवराजस्थो राजस्थम् अनुपालय अतिक्रान्तया राजा मा स्मयनं व्यपरु व्यपरो रुध कुमारराज्ये जीवस्व तस्यैवाज्ञा प्रवर्तनाम् अब्रवी चापि मां भूयो भजम् श्रोणि वर्तयन् मा सैव मम माता ते पुत्रगर्धिनी इत्येवम् माम् महाबाहु भवन्नेव महायशः रामो राजीव पत्राक्षो ध्वशम् अश्रूण्यवर्तयत् लक्ष्मणस्तु सुसङ्क्रुद्धो निःश्वसन् वाक्यम् पराधेन। राजपुत्रो विवासितः राज्ञा तु खलु कैकेय्य लघु कृतं कार्यं न कार्यं वा वयं येनाभि पीडितः यदि प्रव्राजितो रामो लोभकारणकारितं वरदानानि वित्तं वा सर्वथा दुष्कृतम् कृतम् इदं तावद् यथा कामम् ईश्वरस्य कृते कृतम् रामस्य तु परित्यागे न हेतुमुपलक्षये असमीक्ष्य समारब्धम् विरुद्धं बुद्धिलाघवत् जनयिष्यति सङ्क्रोशम् राघवस्य विवासनम् अहम् तावन्ह राजे पितृत्वम् नोपलक्षये भ्राता भक्ता च बन्धुश्च पिता च मम राघवः सर्वलोकप्रियम् त्यक्त्वा सर्वलोकहिते रतम् सर्वलोको निरुज्येत् रज्येत् कथं चानेन कर्मणा सर्वप्रजाभिरामम् हि रामम् प्रव्रज्य धार्मिकम् विरोधेन कथं राजा भविष्यति जानकी तु महाराज निःश्वसन्ति तपस्विनी भूतोपहतचित्तेव विष्ठिता विस्मृता स्थिता अदृष्टपूर्व व्यसना राजपुत्री यशस्विनी तेन दुःखेन रुदति नैव मां किञ्चिदब्रवीत् उद्वीक्ष्यमाणा भर्तारम् मुखेन परिशिष्यत मुमोच सहसा बाष्पम् प्रयान्तमुपवीक्षत तथैव रामो मुख कुताञ्जलितो ब्रवी लक्ष्मणबाहु पालिते ीता रुदती तपस्विनी निरीक्षते राजरथम् तथैव माम् इत्यार्थे श्रीमद् रामायणे वाल्मीकि अधिकाव्ये अयोध्याकाण्डे अष्टपञ्चाशः सर्गः